हरि ओं श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे द्व्यधिकशतम सर्गः भरतेन भूय श्रीरामं प्रति राजग्रहणाय अनुरोधं कृत्वा तस्मै पितृनिधन समाचारस्य निवेदनम् रामस्य वचनं श्रुत्वा भरत प्रत्युवाच किं मे धर्म विहीन से राजधर्म कैष्यति शाश्वत सदा धर्म स्थित नषभ ज्येष्ठे पुत्रे स्थित राज न कन्या भव नृपे स समुद्धा मैया साध्याघव अभिषेच चात्मान कुलश्या भवाय न जानं मानुषम् प्राहु देवत्वे सम्मतो मम यस्य धर्मार्थसहितम् वृत्तम् आहु अमानुषम् के के हस्ते च मयि तु त्वयि चारण्यमाश्रिते धीमान् स्वर्गं ततो राजा यायजूक सदा निष्कान्तमात्रे भवति सीते स दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगा उत्तिष्ठ पुरुष व्याघ्रे क्रियताम् रोदकम् पितुः अहं चायं च शत्रुघ्न पूर्वमेव कृतो लको प्रियेणके वदत्तं हि पितृलोके अक्षयम् भवतीत्याहुः भवान् चैव त्वामेव शोचन तव दर्शनेसु त्वय्येव शक्ताम् निवर्त्य बुद्धिम् त्वया तव शोकरुग्णां संस्मरेन्नेव गत पिता इत्यार्थे श्रीमद् रामायणे वाल्मीकि आदिकाव्यखण्डे द्वयशीति द्वयधिकशतमः सर्गः श्रीसीतारामचन्द्रार्व मास्तु